अस्तु अद्यतनविषयः अस्ति अभावः इति गतसप्ताहे अत्यन्ताभावस्य विषयः दृष्टः अस्माभिः अत्यन्ताभावः इति अभावेषु अन्यतमः त्रिविधा अत्यन्ताभावः तु त्रिविधः भवति अस्माकम् उदाहरणम् उदाहरणस्य अनुसरेण सामान्याभावस्य निरूपणम् अस्ति यत् सामान्यजलनिष्ठप्रतियोगितानिरूपित अनियोगिताश्रयः इति प्रथमविधः अस्ति सामान्याभावः इति द्वितीयविधः अस्ति विशेषाभावः इति तस्य निरूपणं किम् अस्ति वृष्टिजल अस्माकम् उदाहरणानुसरेण वृष्टिजलनिष्ठ प्रतियोगितानिरूपित अनुयोगिताश्रयः विशेषाभावः इति तृतीयविदः अस्ति विशेषविशेषाभावः तस्य निरूपणम् किम् स्वातिनक्षत्रीयवृष्टिजलनिष्ठ प्रतियोगितानिरूपित अनियोगित आश्रयः विशेषविशेषाभावः एतत् सर्वम् अस्माकम् उदाहरणम् अधिकृत्य एव दत्तः अस्तु अस्तु तर्हि त्रिषु स्थलेषु प्रतियोगिताः सन्ति तर्हि प्रतियोगिताः कथम् विद्यन्ते आश्रयभेदेन तासाम् प्रतियोगितानाम् भेदः na mevastha piyate. यतो ही, सामान्य जले vrisihti jallam अपी अंतर भूतं. Vriishti jallे, swati nakshatriya vriishti jallam अंतर भूतं मस्ती. अतः हाश्रेयम धिष्ट्वा टतियों गिता अतिरृत्भाष्टुम्ना शत्नुमह. तरी, तर कहकह धर्मह एवा. धर्मह एवा अ धर्मेण प्रतियोगिता भिद्यते वा अवच्छिद्यते अतः अवच्छेद्य अवच्छेदकभावम् योजयित्वा निरूपणवाक्यम् वदामः पूर्वमेव दृष्टम् अस्माभिः इदानीम् अस्माकं गृहपाठम् अधिकृत्य अवच्छेदक अवच्छे अवच्छेद्य अवच्छेदकभावं योजयित्वा निरूपणवाक्यं किं भवति इति वदन्ति वा बालसुब्रह्मण मन्ये महोदय भवान् प्रयत्नं करोति वा अस्माकं गृहपाठः आसीत् यत् पटाभावः अपि तु नीलपटाभावः तयोः निरूपणवाक्यं नीलपटाभाव प्रथमं पटाभावः पटाभावः अत्र so, so, uh, uh, uh, पठत्त पठाभावः mm. पठ निष्ठ पठत्र mm. निष्ठ mm. अवच्छेत् कथा निरूपित अवच्छेद्यथा आश्रयः mm. mm. प्रतियोगी निरूपित अनियोगी uh, um, अनियोगी um, भवान् एकनिमिषम् महोदय महोदय एकनिमिषम् अवचेति अवचेदकता अवचेद्यतां निरूपेति तावत्पर्यन्तम् उक्तवान् अवचेद्यता कुत्र निष्ठा अस्ति अवचेदकता यज्ञ एकनिमिषम् पटत्वम् इति खलु अस्माकं <imitation> <imitation> भवान् uh. सम्यक् एव उक्तवान् uh. पट पत, पटनिष्ठपटत्वनिष्ठ पटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता uh. आश्रय प्रतियोगिता uh. uh. अनिरूपित अनियोगित uh. आश्रय पटाभावः <imitation> बहु समीचीनम् बहु समीचीनम् अतः अत्र पटत्वम् इति धर्मः एव अवच्छेदकः भवति कम् अवच्छेदयत् काम् अवच्छेदयतियोगी तां तां पटत्वम् अवयोगिता अवच्छेदयति बहु समीचीनं प्रतियोगिताम् अवच्छेदयति अस्तु तर्हि प्रतियोगिता तु अनुयोगितां निरूपयति सा अनयोगिता कुत्र आश्रिता अस्ति पठाभावे आश्रिता अस्ति अस्तु बहु समीचीनम् इदानीं सीमा भगिनी कृपया नीलपठाभावस्य निरूपणवाक्यं वदति किम, इदानीं पठनं न आरब्धः परन्तु पृष्ठसङ्ख्या अस्ति ट्वेण्टि सिक्स् इति षड्विंशतिः अस्तु अस्तु भगिनी सीमा भगिनी <laughs> um, uh, नीलपट्टत्वनिष्ठ अवच्छेद्यता अवच्छेदकता hmm. निरूपित अवच्छेद्या अवच्छेद्यताश्रयः अवच्छेद Hmm. नीलपटत्वनिष्ठप्रतियोगिता निरूपित अनियोगिताश्रयः अभावः कीदृश अभावःभावः नीलपट नीलपटाभावः इति खलु ओ oh, नील ओके नीलपटाभाव अस्मिन् उदाहरणे नीलपटाभावः बहु समीचीनं नीलपटत्वनिष्ठ अवच्छेद्यकता निरूपित अवच्छेद्यताश्रयः पठनिष्ठ नीलपटनिश्च प्रतियोगिता निरूपित अनियोगित आश्रयः नीलपटाभावः इति तत्र प, प्रतियोगिता आ, वक्तुं समये नीलपटत्वनिष्ठ अथवा पटत्वनिष्ठ अपि सम्यक् uh, अस्ति कुत्र अस्ति प्रतियोगिता प्रतियोगिता नीलपटे अस्ति एकनिमिषं पुनः पुनः वदतु भगिनि ओके okay. नीलपटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता श्रयः पश्चात् <laughs> पटत्वनिष्ठ चलति अथवा नीलपटत्वनिष्ठ एव सम्यक् नीलपटत्वशुद्धौ खलु किमर्थम् इत्युक्ते okay. प्रतियोगिता पटत्वे नास्ति पटे एव खलु नीलपटे भवति uh. खलु यथा तद्यथा अस्माकं प्रथमे प्रथमे उदाहरणे सामान्यजलम् इति स्वीकुर्म स्वीकुर्मश्चेत् प्रतियोगिका कुत्र अस्ति सामान्यजले एव अस्ति खलु पशुद्धजले अस्ति न तु जलत्वे खलु प्रतियोगिका प्रतियोगि कः प्रतियोगी प्रतियोगी अत्र नीलपट्ट अस्ति समीचीनम् अतः प्रतियोगिता तस्मिन्नेव अस्ति खलु नीलपटनिष्ठप्रतियोगिता इति अतः अवच्छेद्रयः नीलपटनिष्ठप्रतियोगिता निरूपित इति अवच्छेदकता यदा वदामः तर्हि तत् तत्र पटत्वनिष्ठ अवच्छेदकता इति वक्तव्यमस्ति कि... खलु किमर्थं सन्देहः तत्र तत्र धर्म अवच्छेदकता कृते धर्मस्य भवेत् खलु धर्मं वक्तव्यं किन्तु प्रतियोगिता समये द्रव्यमेव वक्तुं शक् शक्नुमः हा इत्युक्ते धर्मः तु धर् दर्व, द्रव्य एव भवति जलत्वम् इति भावः धर्मः जले एव भवति इति कृत्वा तत्र द्रव्यस्य उल्लेखः आवश्यकः नास्ति परन्तु प्रतियोगिता अवश्यम् अवश्यं प्रतियोगिताः आश्रयः अवश्यं वक्तव्यः अस्तु ओके okay. एकः अन्यः प्रश्नः अस्ति भगिनि पट नीलपट नीलपटे पटत्व अपि अस्ति नीलपटत्व अपि अस्ति तर्हि मम मनसि यदा समस्या पूर्वसमस्या अस्ति सा एव अत्र एव अस्ति इति भाति समस्या जले, जले अपि जल जल आ, आ, जलत्वम् अस्ति इति वा जलत्वम् अस्ति अत्र एकनिमेष अस्माकं धर्मस्य ग्रहणं किमर्थमस्ति जले वृष्टिजलस्य अन्तर्भावः अस्ति जले स्वातिनक्षत्रियवृष्टिजलस्य अन्तर्भावः अपि अस्ति अतः अस्माकं कृते धर्मस्य ग्रहणं भवितव्यं किन्तु नीलपटे पठत् नीलपटे अपि पटत्व अस्ति एव आम् नील नीलपटः यत्र अस्ति तत्र सामान्यपटः न अन्तर्भूतः खलु यदि पीत पीतवर्णस्य पटः अस्ति वा mm -hmm. श्वेतपटः अस्ति तौ मास्तु खलु आम् तौ मास्तु किन्तु वयं दृष्टवन्तः पूर्वं पृथ्वी पृथ्वीपदार्थे पृथ्वीत्वम् अस्ति द्रव्यत्वम् अस्ति अपि अस्ति आम् अवश्यम् द्रव्यत्वमस्ति नीलपटत्वमस्ति न तु पटत्वम् अत्र भगिनी अत्र तु अभावस्य प्रसङ्गः खलु अस्माकं लक्ष्यं किम् अस्माकं लक्ष्यम् अस्ति यत् प्रतियोगिता कथं भिद्यते इति प्रतियोगिता कथम् विद्यते इति प्रश्नः तर्हि आश्रयेण वक्तुं शक्नुमः वा प्रतियोगिता भिद्यते इति न आश्रयं दृष्ट्वा न वक्तुं शक्नुमः परन्तु आश्रये यः धर्मः अस्ति सः धर्मः एव प्रतियोगिताम् अवच्छेदयति भवत्याः प्रश्नः अहम् अवगच्छामि पटे पीलपटः अस्ति नीलपटे पटत्वं इति धर्मः विद्यते वा इति प्रश्नः खलु धर्म एकनिमिषम् अस्तु हा हा मम प्रश्नः अस्ति भगिनि नीलपटः अस्ति mm -hmm. um. uh, नीलपट नीलशाटिका अस्ति नीलयुतकम् अस्ति नील किम् प्रावारकम् अस्ति ते सर्वे नीलपटाः खलु uh. अत्र धर्मः कः जातिः का अत्र यदि अहं पृच्छामि भवती वदतु एतेषु जातिः विद्यमाना जातिः का इति नीलशाटिका नीलप्रावारकं नीलयुतकम् एव खलु अतः जातिः अत्र बहु स्पष्टा एव नीलपटत्वमेव जातिः यतोहि सर्वेषु नीलत्वम् अस्ति अपि तु पटत्वं खलु अस्तु अतः द्वयोः मेलनेन नीलपटत्वम् एव धर्मः ओके ओके इदानीम् अवगतम् अस्मि अवगच्छामि अवच्छेदकता कृते धर्म नीलपटत्वधर्म स्पेसिफिक् अस्ति हा हा यदि अहं वदामि पटत्वम् इति जातिः तर्हि पटत्वम् इति बृहज्जातिः खलु परन्तु तत्र न्यूनातिन्यूना जातिः का इति द्रष्टव्यं भवन्ति धन्यवादः अस्तु अस्तु किम् अस्माकं विषयः कः अस्ति गृहकार्यमासीत् नील गृहकार्यम् आं निरूपणवाक्यानि अपि वाक्ये अपि उक्ते खलु अस्तु उत्तमं तर्हि अत्र सन्देहः अस्ति वा मम कृते न भगिनि अस्तु उत्तमम् <coughs> तर्हि अग्रे कृषसङ्ख्या um, अस्ति षड्विंशतिः इति नूप्यनिरूपकभावः अवच्छेद्य अवच्छेदकभावः च सर्वत्र भवति इति शीर्षकः अस्तु hmm? कृपया uh, चित्रम् पश्यन्तु um, नूतनतया रा रामनाथमहोदयेन आगतं खलु महोदय रामनाथमहोदय अस्तु कृपया चित्रं पश्यन्तु अधोभागे अस्ति चित्रम् तत्र अस्ति यज्ञदत्तः इति द्रव्यम् अस्ति आसनम् इति द्रव्यमपि अस्ति तयोः कः सम्बन्धः पुष्पभगिनी वदति वा तयोः कः सम्बन्धः पूर्वमपि दृष्टम् अस्माभिः यज्ञदत्तः आसनं तयोः कः सम्बन्धः अस्ति uh, अत्र वदनं uh, सर्वे वदनं यज्ञदत्तनिष्ठयज्ञम् निमित्तवाक्यं मास्तु परन्तु केवलं तयोः कः सम्बन्धः इति अस्तु मम प्रश्नः अस्ति यज्ञततः कुत्र अस्ति आसने अस्ति यज्ञतः आसने उपविशति तर्हि तयोः कः सम्बन्धः अधः आसनम् अस्ति उपरि उपरि तर्हि एतावता कतिविधाः सम्बन्धाः दृष्टाः अस्माभिः इत्युक्ते अस्माकम् एकनिमिषं भगिनि अस्माकं पूर्व पूर्वस्मिन् सन्दर्भे उदाहरणमासीत् हस्तद्वयं तयोः मेलनम् अस्ति हस्तद्वयम् तयोः समवायसम्बन्धः संयोगसम्बन्धः द्वे अपि समीपं समीपे अस्ति द्वे समीपे संयोगः अस्ति ीपे इतोपि उचितः शब्दः नास्ति न न उचितः शब्दः उपयुक्त्वा उचितं शब्दः संयोगसम्बन्धेन किमर्थं संयोगसम्बन्धः इति प्रश्नः किमर्थं संयोगसम्बन्धः Um, <laughs> भवती सर्वं स्मरि स्मृत्वा वदतु इत्युक्ते पूर्वस्मिन् पुटे जल जल अस्तु घटः जले निमज्जितः परन्तु घटत्वं पृथक्तया उपरि किमर्थं जलस्य उपरि न भवति खलु जलस्य उपरि न भवति किमर्थं जलं घटः पृथक् घटत्वं पृथक् इति दृश्यते वा जले न किमर्थं जलं घटे जलम् अस्ति घटे जलमस्ति मम प्रश्नः अस्ति घटत्वं घटः तयोः तयोः कीदृश कीदृशसम्बन्धः भवति समवायसम्बन्धः समवायसम्बन्धः खलु इदानीं कृत्वा उदाहरणद्वयमस्ति हस्तद्वयमेलनम् अपि तु घटत्वं घटः घटत्वं इदानीम् उदाहरणद्वयम् अस्ति तयोः भेदः कः अवयवं घटस्य धर्मः अस्ति चिन्तयतु चिन्तयतु अन्य कोऽपि वदति वा वदामि भगिनि आम् अवश्यं भगिनि यत् पूर्वम् अप्राप्तमस्ति प्राप्तयोः विविक्तयोः पदार्थो या प्राप्तिः सा संयोगः समीचीनम् समवायसम्बन्धः नित्यः अस्ति बहु समीचीनम् बहु समीचीनम् तर्हि हस्तद्वयसंयोगः यदा भवति संयोगस्य नाशः अपि भवितुमर्हति खलु यदा विविक्तः जातः विविक्तौ जातौ हस्तौ तर्हि संयोगः न भवति mm. परन्तु तयोः सम्बन्धः नित्यः समवायसम्बन्धः खलु mm, mm, mm, mm. तयोः पृथक्करणम् असम्भवः अतः ah, ah. सम्बन्धद्वयम् दृष्टम् अस्माभिः संयोगसम्बन्धः Regularization… Tay… नाध नाध हस्ते तत् न गच्छति न समवायसम्बन्धः संयोगसम्बन्धः तत् तद् नास्ति न इति उच्यते खलु तदेव उक्तं भगिनि एव वदतु समवायसम्बन्धः भवति समवायसम्बन्धः भवति कुत्र इति द्रव्यस्य समवायसम्बन्धः हस्तद्वयम् इति द्रव्यद्वयं खलु परन्तु विशिष्टतया कुत्र समवायसम्बन्धः तयोः द्रव्ययोः मध्ये विशिष्टतया तत्र द्वे हस्ते समवायः समवायसम्बन्धः तत्र जले घटे अवयव अवयविनो समवायसम्बन्धः समीचीनं गतजले जल गुणगुणिनो गुणगुणिनोः समीचीनम् इदानीं बालक्रमणं महोदय वदति वा अवयव अवयविनो क्तौ खलु पुनः एकमस्ति पञ्चसनेषु क्रियाक्रिया समवायः विशेषविशेषण नित्यद्रव्येयुः खलु एतत्तु कृपया मनसि सर्वदा भवेत् एकवारं वदतु भगिनि सीमा भगिनी वदति वा समाजसम्बन्धुनोः नित्यद्रव्ययोः बहु समीचीनम् अस्तु इदानीं मम प्रश्नः किम् आसीत् चित्रम् अवलम्ब्य प्रश्नः आसीत् यज्ञदतः अस्ति पुष्पभगिनी यज्ञदतः अस्ति आसनम् अस्ति तयोः कीदृशसम्बन्धः समवायसम्बन्धः मम मम मनसि भङ्गः एव जातः इदानीम् कथं एकनिमेष यज्ञदत्तः आसने उपविष्टः अस्ति परन्तु सः उत्थातुं शक्यः वा तेन उत्थातुं शक्यः वा अन्यत् कुत्रापि गन्तुं शक्यः वा तेन अवश्यं <आगी> खलु <आगी> <हागी> तर्हि सम्बन्धः नित्यः भवति वा अत्र न नित्यः न भवति <आगी> किमर्थं तर्हि समवायः इति <आगी> <आगी> उक्तं भवत्यामर्थं संयोगः न समवायः नित्यः संयोगः अस्तु तर्हि अवश्यं भवती भवत्या मनसि स्पष्टता नास्ति अस्मिन् विषये नगिनि वदतु ओके okay. okay. यज्ञदत्तस्य यज्ञदत्तस्य आसनेन सह संयोगसम्बन्धः अस्ति एवम् क्षमितां क्षम्यतां करोतु करोतु भगिनि सीमा भगिनि कृपया अस्तु अपि तु तेषां तयोः मध्ये आधार आधेयतामध्ये निरूपकनिरूपकनिरूप्यभावसम्बन्धः अपि अस्ति न जानामि इतोपि वक्तव्यमस्ति न वा <laughs> <laughs> न केवलं सम्बन्धविषये एव मम प्रश्नः संयोगः तयोः संयोगसम्बन्धः किमर्थं संयोगसम् पूर्वं तौ विविक्तौ स्तः इदानीं mm, mm. तेषां मध्ये किञ्चित् सम्पर्कः सम् अस्ति सम्बन्धः ah. पश्चात् ah. तत् सम्बन्धः भग्नः अपि भवितुम् अर्हति खलु आम् अवश्यं भविष्यति एव आम् सर्वदा तेषां सम्बन्धः न भवति यदा कदापि यज्ञगतः आसने उपविष्टः अस्ति तदा तयोः सम्बन्धः भवति संयोगरूपेण mm. परन्तु यत्र कुत्रापि सम्बन्धः सर्वदा अस्ति तयोः पृथक्करणम् एव असम्भवः यथा गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्तयोः अवयविनोः विशेषनित्यद्रव्ययोः hmm. तयो तत् एतेषु स्थलेषु पृथक्करणम् असम्भव असम्भवम् अस्ति खलु गुणम् रूपम् इति अस्ति घटे रूपम् पृथक्कर्तुम् शक्यते वा घटात् yeah. uh -huh. अतः एव समवायसम्बन्धः इति उच्यते इदानीम् स्पष्टम् वा कुत्र सन्देहः भवत्याः सन्देहः नास्ति भ्रम नास्ति स्मरितुं न शक्नोमि भगिनि मम वयस् नास्ति एव अवश्यं मा विस्मरतु कृपया इदानीं चित्रं पश्यन्तु सर्वे यज्ञदत्तः आसनं तयोः संयोगसम्बन्धः अस्तु तर्हि यथा सीमाभगिन्या उक्तम् अधिकरणं किम् आधेयः कः सीमाभगिनी वदतु कृपया आसनम् अधिकरणम् अस्ति समीचीनं तर्हि कुत्र अधेयता कुत्र अधिकरणता अस्ति आदनेता अस्ति समीचीनम् कयोः निरूप्यनिरूपकभावः आधेयता अधिकरणतायोः निरूप निरूप्यनिरूपकभावः अस्ति बहु यतोहि यदि आधेयता अस्ति अधिकरणता आधे आधे अवश्यं भवति एव सम्बन्धिकौ पदार्थौ अतः तयोः निरूप्यनिरूपकभावः अस्ति एव अस्तु तर्हि धर्मः कुत्र कुत्र अस्ति समीचीनम् बहु समीचीनम् एतत् सर्वम् स्पष्टम् अस्तु इदानीं सीमा भगिनी कृपया प्रथमपरिचय प्रथमं परिच्छेदम् पठतु कृपया निरूप्यनिरूपकभावः अवच्छेद्य अवच्छेदकभावः च सर्वत्र भवति अत्र अयम् विशेषः सम्बन्धः यः कोऽपि अस्तु निरूप्यनिरूपकभावः तत्र अवश्यम् भवति अवच्छेद्य अवच्छेद्यावच्छेदकभावः च आधार आधेयभावे इदम् चिन्तयामः पूर्वोक्ते उदाहरणे यज्ञदत्तनिष्ठ आधेयतानिरूपित अधिकताश्रयः आसनम् इति अत्र आधारता अध्येयत आध्येयतयोः निरूप्यनिरूपकभावः यथा वर्तते तथा आधेयतायाः एवम् अधिकरणतायाः सामानाधिकरणधर्मस्य च अवच्छेद्यावच्छेद यः कःपि सम्बन्धः भवति तत्र निरूप्यनिरूपकभावः सम्बन्धः एवम् अवच्छेद्य अवच्छेदकभावः सम्बन्धः न निरूप्यनिरूपकभावः एवम् अवच्छेद्य अवच्छेदकभावः अवश्यं भवति कथम् hmm. इति अग्रे पश्याम hmm. hmm. uh, पूर्वस्मिन् उदाहरणे hmm. hmm. uh, यज्ञदत्त अनिष्ट आधेयतानिरूपित अधिकरणताशः आसनं hmm. uh, तस्मिन् वाक्ये आधारता आधेयतयोः निरूप्य hmm. भावः द्रष्टः तथा अधेयतायाः एवम् अधिकरणतायाः सामानाधिकरणधर्मस्य च तद् न जानामि भगिनि तत्र यावच्छेदकभावः भवति तद् जानामि सामानाधिकरणधर्मस्य न जानामि निरुपिनिरुपभावः भवति तयोः इति दृष्टम् अस्माभिः खलु अस्तु इदानीम् अस्ति यः तर्हि तस्मिन् तस्मिन् अपि अस्ति तर्हि यज्ञदत्तत्वम् आधेयत तयोः अधिकरणं किम् सीमा भगिनी अहं शृणोमि भगिनि यज्ञदत्ते अधेयत अस्ति ओ मम प्रश्नः आसीत् यज्ञदत्ते यज्ञदत्तत्वं यज्ञदत्ते आधेयत तर्हि यज्ञदत्तत्वम् आधेयत तयोः अधिकरणं किम् <पड़िति> आम, आम, आम, आम। आ अस्तु तर्हि तर्हि तयोः सामानाधिकरण्यं खलु इदानीम् आधेयता सामानाधिकरणस्य धर्मः तयोः अवच्छेदे अवच्छेदकभावः अस्ति इति इदानीं स्पष्टं वा स्पष्टम् अवगच्छामि धन्यवादः इदानीं वदतु भगिनि ओके okay. ना यज्ञ यज्ञदत्ते ओके ओके यज्ञदत्ते किं किम् अस्ति इति यज्ञदत्ते यज्ञदत्तत्वम् अस्ति अध्ययता अपि अस्ति अतः तयोः सामानाधिकरण्य करण्यम् ते तयोः सामानाधिकरणधर्ममपि भवति एवं न न न तयोः सामानाधिकरण्यमस्ति सामानाधिकरणीयं <laughs> किम् यज्ञदत्तः खलु आम् आम् आम् तर्हि सामानादिकरणस्य धर्मः कः अहो यज्ञदत्तत्वम् ओके ओके ओके अस्तु अस्तु अस्तु आधेयतायाः यज्ञदत्तस्य आधेयतायाः एवं यज्ञदत्ते यज्ञदत्तत्वं यत् अस्ति ओके तत् तयोः मध्ये स्थानादिकरणीयम् अस्ति एवं च तयोः अवच्छेद्य अवच्छेदकभावः अपि भवति तावदेव क्षम्यता न न चिन्ता मास्तु चिन्ता मास्तु सम्यक् एव सम्यक् बालसुब्रह्मणं मन्ये महोदय आसने ीमा भगिन्या उक्तम् आसने किम् अस्ति इति वदति वा आसने आसनत्वम् तस्मात् आसनत्वम् अधिकरणतयोः सामानधिकरण्यम् अस्ति तयोः सामान तर्हि कयोः अवच्छेद्य अवच्छेदकभावः इत्युक्ते यथा अस्मिन् वाक्ये दत्तम् अस्तिकरणधर्मस्य च अवच्छेद्य अवच्छेदकभावः अस्ति इति अस्ति खलु uh -huh. oh. तादृशं वदतु कृपया आसनम् उभयः समानाधिकरणम् एतोः मध्ये कयोः मध्ये समानाधिकरण्यं तयोः समानाधिकरण्यम् अधिकरणता आसनत्वम् आसनम् आसनत्वम् अधिकरणता तयोः समानाधिकरण्यं खलु रूपेण so, अवच्छेदकथा आसनत्वम् अधिकरणता <coughs> एतयोः अवच्छेदक अवच्छेदकथा अवच्छेद्यता धर्मा हस्तः हा। इत्युक्ते अवच्छेद्य अवच्छेदकभावः कुत्र अस्ति वा कयोः अस्ति याः सामानाधिकरणधर्मस्य च अवच्छेद्य अवच्छेदकभावः अस्ति खलु इदानीं स्पष्टं वा अस्तु भगिनी स्पष्टं वा उत्तमं तर्हि भवती पठतु अग्रे एकनिमिषम् एकनिमिषं चिन्ता इदानीं चित्रस्य अर्थः स्पष्टः जातः इदानीं निरूपणवाक्यं किं भवति वदति वा प्रयत्नं करोमि यज्ञदत्तनिष्ठदत्तत्वम् इति आरभ्य वदतु हा यज्ञदत्तत्वं निष्ठ अवच्छेदकता निरूपित अवच्छेद्यता अवच्छेद्यता um, uh, निरूपित आधेयता इति अत्र निरूपिता न अवच्छेद्यता यज्ञदत्तनिष्ठ आधेयता एकनिमिषम् इति विस्मृतः ओहो हो अवचेद्यता Uh. ग्नदत्तनिष्ठ आधेयता अग्रे कथयति आसनत्वं आशन, न भगिनी आधेयता पर्यन्तं सर्वं सम्यक् तदनन्तरं किं भवति आधेयता किं निरूपयति अधिकरणता आसननिष्ठ अधिकरणता भगिनी निरूपित इति भवेत् खलु हा निरूपित हा आदयता निरूपित अधिकरणता आसननिष्ठाधिकरणता न आसननिष्ठाधिकरणताश्रय न न तत् आश्रय न तत्तु आसनत्वम् इति आरनत्वम् आरभ्य आरभ्य ओके आसनत्वम् आसनत्वम् आसनत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः आसननिष्ठ अधिकरणता समीचीनं समीचीनं नो चेत् किञ्चित् भिन्नतया शक्यते यज्ञदत्तत्वम् निश् यज्ञदत्तत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय यज्ञदत्तनिष्ठयता निरूपित किं निरूपयति अधिकरणता कीदृशा कीदृशी अस्ति आसनत्वनिष्ठ अवच्छेदकता निरूपित भवत्या उक्तम् नो चेत् अवच्छेद्य अस्तु भगिनि हा तथा च निरूप्यनिरूपकभावम् अवच्छेद्यावच्छेदकभावम् च अन्तर्भाव्य यज्ञदत्तः आसने अस्ति अस्ति इत्य इति अत्र इत्थं परिष्कारः भवति यज्ञदत्तत्वनिष्ठ अवच्छेदकथा निरूपयः वयं निरूपकनिरु निरूप्यनिरूपकभावम् अवच्छेद्यावच्छेदकभावं च अन्तर्भाव्य अन्तर्भाव्य इति वदनेन अन्तर्भाव्य इति इदानीम् अन्तर्भूताः निरूपणवाक्यं वदामः आसने अस्ति इति अत्र परिष् परिष्कारः भवति कथं वदति परिष्कारः तु विवरणं भवति इति इतोपि विस्तृतया विवरणं अस्तु यज्ञदत्तनिष्ठ अवच्छेदकथानिरूपित अवच्छेद्यताश्रय यज्ञदत्तनिष्ठ आदेयतानिरूपित आसन आसनत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यताश्रय अधिकरणताश्रय आसनम् बालसुब्रह्मण्यं महोदय अपि तु सीमा भगिनी निरूपणवाक्यं वक्तुं शक्यते वा अग्रे अग्रे Uh, पृथ्वीज पृथ्वी विषये वदतु um, uh, परन्तु इदानीं हा समीचीनं पुष्पभगिनी धन्यवादः धन्यवादः तावत् अस्तु इदानीं um, सीमा भगिनी कृपया भगिनि एवमेव एवमेव वक्ष्यमाणपृथ्वीलक्षणे अपि गन्धवती पृथ्वी इत्यत्र पृथ्वी भवती अधिकरणं गन्धः च आधेयः तथा गन्धत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यताश्रय गन्धनिष्ठाधेयतानिरूपित पृथ्वीत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यताश्रय अधिकरणताश्रय पृथ्वी इत्येवं परिष्कारः आलोचनीयः यथा यज्ञदत्तः आसनम् तयोः संयोगसम्बन्धः दृष्टः अपि तु तयोः निरूप्यनिरूपक इत्युक्ते आधेयता अधिकरणतयोः तयोः निरुप्यनिरूपकभावः अपि तु सामानाधिकरणधर्मस्य आदेयता आधेयतायाः वा अधिकरणतायाः अवच्छेद्य अवच्छेदकभावः दृष्टः तथैव गन्धः पृथ्वी तयोः कीदृशः सम्बन्धः समवायसम्बन्धः अस्ति समवायसम्बन्धः इदानीं वदतु किं किं कुत्र अस्ति कयोः निरुपि निरूपकभावः कयोः अवचेद इति वदतु तत् तदनन्तरं बालसुब्रह्मण्यमहोदय निरूपणवाक्यं वदतु कृपया ओके पृथिव्याम् अस्ति गन्धः पृथिव्याम् अस्ति पृथ्वीत्वम् अपि mm. पृथ्वी गन्ध गन्धस्य कृते आधारः अस्ति गन्धः आधेयः अस्ति mm. गन्धस्य आधारः पृथ्वी तावदेव हा गन्धः आधारः पृथ्वी अस्ति अतः गन्धत्व अधिकरणतामध्ये समानादिकरणीयमस्ति अस्तु क्षम्यतां समानादिकरणीयमस्ति तयोः मध्ये, आधेयतामध्ये पृथ्वीत्वमध्ये अपि तु मध्ये, एवं त्वमध्ये आधेयतामध्ये समीचीनम् समानादिकरणीयम् अस्ति अपि तु पृथ्वीत्वे अवच्छेदकता अस्ति एवम् अधिकरण अधिकरणतायाम् अवच्छेद्यता अस्ति समीचीनम् एवं गन्धत्वे अवच्छेदकता अस् Hmm. आध्येयतायाम् अवच्छेद्यता अस्ति समीचीनं अवच्छेदकता अवच्छेद्यता आवच, निरूपयति पृथ्वीते यत् अवच्छेदकता यत अस्ति तद् अधिकरणताश्रयः अवच्छेदकता निरूपयति एवं गन्धत्वे यत् अवच्छेदकता अस्ति तत् आधयताश्रयः अवच्छेदता निरूपयति आदयतायाः आश्रयः तेन खलु आदयतायाः खलु क्षम्यतां समीचीनं बहु समीचीनं भगिनी सम्यक्तया उक्तम् इदानीं बालसुब्रह्मण्यं महोदय निरूपणवाक्यं किम् गन्धनिष्ठ गन्धत्वनिष्ठेदकता निरूपित अवच्छेद्यता किमर्तम किमर्थम् उदाहरणयोः मेलनं मिश्रणम् यज्ञदत्त दत्तः कुतः आगतः अवश्यं नास्ति अस्तु एकनिमिषं प्रथमप्रश्नः अस्ति शिवा भगिनी अपि तु सर्वे अपि भवतां पुरतः चित्रमस्ति वा पृथ्वीगन्धयोः चित्रमस्ति रचित्रं वा न परन्तु अवश्यं धावयति कृपया निपुणाः सन्ति चेत् भवत् भवन्तु परन्तु <laughs> इदानीमेव अस्माकं पठनं खलु अहं वदामि दोषं चेत् कृपया मा, मास्तु वा अस्मिन् उदाहरणे गन्धनिष्ठ गंद, गन्धत्वनिष्ठ अवच्छेदकता निरूपिता, अवच्छेद्यता आश्रय गन्धनिष्ठ आदेयता निरूपित रणता सो पृथ्वीनिष्ट आसनत्वनिष्ट आस पृथ्वीनिष्ट आसनं नास्ति अत्र अवच्छेदकता निरूपित किं किं कुत्र कुत्र अस्ति अवच्छेदकता एव उक्तवती पृथिवीनिष्ठ पृथिवी पृथिवीत्वनिष्ठ अवचेतगता निरूपित अवचेद्यथाश्रय पृथिवीनिष्ठ अधिकरणता बहु समीचीनं तर्हि निपुणः एव भवान् उत्तमं चित्रं विना एव प्रदर्शितं खलु उत्तमं बहु उत्तमम् तरी सर्वं स्पष्टं वा सर्वेषां स्पष्टम् एवं तर्हि परन्तु कृपया चित्रं रचयित्वा एव वर्णयतु हा विवृणोतु तथैव स्पष्ट समीचीनम् अग्रे पुष्पा भगिनी कृपया अस्तु भगिनि अभावस्य चतुर्विधविधत्वं प्रकृतमनस मनसरामः दर्शित दर्शितरीत्या अभावप्रक्रियापरिज्ञाननाय सामान्याभावाद्य अभावाद्यभावः भावाः निरूपिताः mm. ते च अत्यन्ताभावस्य प्रभेदाः mm. तर्कसङ्ग्रहकृता mm. तु अभावश्च अभवश्च तु अभावश्चतुर्विधा अभावश्च mm. चतुर्विः चतुर्विधः चतुर mm. रागभावः प्रद्वंसाभावः mm. अत्यन्ताभावः भावः अन्योन्याभावः इति mm. mm. दर्शितः mm. अभावस्य विभागः आ, तत्र न, चित्रे अभावः प्राग् प्राग्भावः प्रध्वंसाभावः अत्यन्ताभावः अन्योन् अन्योन्याभावः इति चत्वारि अभा, अभावः अभावः सन्ति चत्वारः अभावः सन्ति अत्र अत्यन्ताभावः सामान्याभावः विशेषाभावः विशेषविशेष विशेषविशेषाभावः इति त्रीणितनीतरं कथं वदामि विभज्यन्ते खलु समीचीनं तत्र स्थूल स्थूलाक्ष स्थूलाक्षरैः अस्ति यत् तर्कसङ्ग्रहात् अस्ति इति कृत्वा अत्र स्थूलाक्षरै कृताः अभावः चतुर्विधाः प्रागभावः प्रध्वंसाभावः अत्यन्ताभावः इति अस्तु पूर्वं दृष्टम् अस्माभिः अत्यन्ताभावस्य प्रभेदाः दृष्टाः अस्माभिः इदानीम् अवशिष्टाभावस्य विवरणम् अत्र एवं विभागचित्रं स्यात् एवं वा अत्र एवं विभागचित्रं स्यात् इदानीं ग्रन्थ उक्तसारेण प्राग् अभावः निरूप्यते अस्ति कश्चित् घटनिर्माता सः घटनिर्माणाय मृदम् आहरति जलं चानयति mm. तेन संयुक्ता मृदं भ्रमयितुं चक्रम् आनयति सिद्धं घटं चक्रात् पृथक् कर्तुं रज्जुं च आहरति mm. तदा तादृशीं घटसामग्रीं दृष्ट्वा भवति ज्ञानम् अत्र घटो भविष्यति इति एतादृशज्ञानं घट अभावं प्रकाशयति अतः mm. so, ग्रन्थ उक्तरीत्या अनुसरणं कुर्यामः घटनिर्माता mm. एकः कश्चित् अस्ति इत्युक्ते घटनिर्मः कुलालयः कर्मकारः एकदिने घटनिर्माणार्थं सः मृदं जलं मृदम् आहरति जलम् आनयति मृत् इत्युक्ते मृत् मृत् मीन्स् क्ले मृच्छकटिका इति ग्रन्थमस्ति किल मृत् मृच्छकटिकाले मृत् मृदम् आहरति जलं च आनयति सः कुलालः तेन जलं मृदम् तयोः संयुक्तं संयुक्तः कृतः तदनन्तरं तद् मृदं संयुक्तं मृदं भ्रमयितुं शक्रम् अपि आनयति mm. तदनन्तरं सिद्धं घटं शक्रात् भ्रमणसमये घटं उत्पादयति Mm. पृथक् कर्तुं रज्जुं च आहरति mm. रज्जुम् उपयुज्य <coughs> mm. पृथक् कर्तुं mm. तदा तादृशीं घटसामग्रीं दृष्ट्वा भवति ज्ञानं भवति ज्ञानम् अस्माकं ज्ञानं भवति अस्मा mm. अत्र घटो भविष्यति इति ज्ञानम् एतादृशज्ञानं भावं प्रकाशयति mm. इत्युक्ते पूर्वं भविष्यत्काले घटं भविष्यति इति ज्ञात्वा mm. पूर्वं घटः न आसीत् इति ज्ञानम् एतादृशज्ञानं घट अभावं प्रकाशयति पूर्वं घटः अभावम् इति ज्ञानम् सम्यक् सम्यक् भविष्ये घटः भविष्य भविष्ये एव घटः उत, उत्पस्यते इति ज्ञानम् mm -hmm. इदानीं तु घटः नास्ति परन्तु घटसामग्री तु अस्ति यत् यत् अपेक्षते घटनिर्माय घटनिर्माणाय तत्सर्वम् उपस्थितम् अस्ति परन्तु घटः इतोपि न निर्मितः अस्ति अतः एतत् सामग्रीम् दृष्ट्वा असु भविष्ये घटः भवति वा भविष्यति घटः भविष्यति इति ज्ञानम् भवति वा प्रतीतिः प्रत्ययः इत्युक्ते तत्र टिप्पणी अस्ति प्रत्ययः इत्युक्ते ज्ञानम् घटः अग्रे भविष्यति चेत् इदानीम् घटः नास्ति खलु दृश अभावः एव प्रागभावः इति उच्यते स्पष्टम् अस्तु अग्रे पुष्पः एव किल प्राग् अर्थं पूर्वम् पूर्वम् घटात् प्राक् घट अवगतम् इदानीम् अगवतम् घटं घटं स्थापनमस्ति तथैव प्रागभावः पूर्वं घटा अयम् एवपत्तेः प्राक् सामग्रिसत्त्वे घटाधिकरणे प्रतीयमानः ज्ञायमानः अत्रापि घटस्य mm. अस्य अभावस्य च विरोधः प्रतियोगी अनुयोगिभावः अस्ति यदा प्राग्भावः न तदा घटः उत्पन्ने पुनर्घटे न घटप्राग्भावः इति अस्ति तयोः सहानवस्थानुरूपः विरोधः तद् निरूपणप्रकारः पूर्ववत् ज्ञातव्यः घटोत्पत्तेः पूर्वं यः अभावः अस्ति सः घटाभावः सामग्री अस्ति घटः एवं घट Uh, ्रागभावः uh, विरोधिनौ खलु विरोधिनौ विरोधिनौ स्तः mm. तयोः मध्ये uh, प्रतियोगी अन्योभावः अस्ति समीचीनम् सः um, विरोधः uh, सहानवस्थानरूपविरोधः सहा किमर्थम् न तु सर्प जानातु किमस्ति नकुलसर्पसदृशः नास्ति एकस्मिन् काले तयोः सहानवस्थान् न भविष्यति सः अवस्थानं न भवति यदा घटः अस्ति तदा घटाभावः प्राग्भावः नास्ति यदा घटाभावः अस्ति तदा घटः नास्ति समीचीनं बहु समीचीनम् अस्तु अग्रे, अग्रे। निरूपणवाक्यं ओ भवति एव वदतु सीमा भगिनी चित्र आम् आम् घटनिश्च प्रतियोगितानिरूपित अनुयोगिताश्रयः घटा घटप्रागभावः समीचीनम् अग्रे घटनिष्ठप्रतियोगिता um, निरूपित अनुयोगिताश्रयः घटध्वंसः uh, इदानीम् um, अग्रे पुष्पः भगिनि पठतु कृपया आं भगिनि शृणोति वा एवं घटे मुद्गरपाते सति अत्र घटौ द्वस् द्वस्तः hmm. द्वस्तः इति प्रतीतिः जायते hmm. एतादृशप्रतीतौ यः प्रकाश्यते सः घटध्वंसः द्वितीयः अभावः कृते अत्र द्वस्तः इति क कर वदनेन कर्तं किम् इति अस्तु एवं मृद्गरमुद्गरपाते सति अत्र घटः ध्वस्तः इति प्रतीतिः जायते तत्तु सतीरः इत्युक्ते क्ले मुद्गरपाते अस्तु भगिनि एकवारं श्रुण्मः मुद्गरपाते सति अत्र घटो घटः ध्वस्तः इति प्रतीतिः ज्ञायते तत्तु मुद्गरपाते घटः ध्वंसः ध्वंसः आगच्छति घटस्य ध्वंसः आगच्छति ध्वंसः भवति भवति भवति भवति इति वयं जानीमः एतादृशप्रतीतौ यः प्रकाश्यते सः घटध्वंसः द्वितीयः अभावः तत् तत् तदानीं तद् प्रकाश्यते तत् प्रकाश्यते इति वदनेन वयं जानीमः चेत् भावः इत्युक्ते प्राग्भावे तु घटः इतोपि भविष्यति इति प्रतीतिः परन्तु ध्वंसे ध्वंसाभावे घटः अस्ति तस्य नाशः अपि जातः इदानीं घटः नास्ति इत्युक्ते भावे पूर्वं प्रः पूर्व पूर्वघटमासीत् हा पूर्वे पूर्वे आशीत। आशीत। हाँ, हाँ। हा इदानीं घटः अस्ति पूर्वे प्राग्भावे घटः नास्ति तत्तु घटस्य घटस्य अभावः अस्ति तत्तु प्रागभावः एतद्वंस अभावः गदा गदा परन्तु प्राग्भावे तु घटः भविष्यति इति प्रतीतिः ध्वंसाभावे पूर्वमासीत् इति प्रतीतिः अस्तु बालसुब्रह्मण्यमहोदय अत्यन्तबाधपितः भूतले घटो नास्ति इति अभावः घटत्वनिष्ट अवच्छेदकता निरूपित अवच्छेद्यतावती या प्रद्योगिता तन्निरूपकः अभावः एवं पटो नास्ति इति पटक्त अवच्छिन्न प्रतियोगिता कः इत्युक्ते अत्यन्तभावः तु प्राक् निरूपितः भूतले घटः नास्ति इति अभावः mm. प्राक् पूर्वं निरूपितः कुत्र कुत्र निरूपितः उदाहरणरूपेण भूतले घटः नास्ति इति अभावः इदानीं नास्ति महोदय कुत्र निरूपितः अत्यन्ताभावः प्राक् निरूपितः निरूपितः कुत्र भवान् स्मरति वा समीचीन तत्र सर्वम् अत्यन्ताभावः खलु घटत्वनिष्ठत्वनिष्ठ घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्वती या प्रतियोगिता तन्निरूपकः अभावः या प्रतियोगिता घटत्वनिष्ठा अवच्छेदकता निरूपित अवच्छेद्यतावती या घटः प्रतियोगिता इत्युक्ते प्रागभावे वा तद्वंसाभावे चित्र चित्रे पश्यन्तु कृपया तत्र घटे प्रतियोगिता अस्ति घटे घटत्वम् इति धर्मः अस्ति अस्माकम् उदाहरणं निरूपणवाक्यं किम् अस्ति घटन् घटत्वनिष्ठप्रतियोगिता निरूपित क्षम्यताम् घटत्वनिष्ठ अवच्छेदकता क्षम्यता घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः घटनिष्ठप्रतियोगिता इति भवति खलु तदनन्तरम् किं निरूपयति प्रतियोगिता अनुयोगितां निरूपयति एतत् सर्वम् दृष्टम् अस्माभिः परन्तु संक्षिप्तरूपेण कथं वदामः घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः प्रतियोगिता इति वदामः खलु साधारणतया इदानीम् अवच्छेदकता निरूपित अवच्छेद्यतावती प्रतियोगिता इति एव भेदः अर्थः तु समानः एव परन्तु आश्रयः इत्यस्मिन् स्थाने अवच्छेद्यतामः किमर्थम् मतुप्रत्ययः खलु mm -hmm. बुद्धिमान् धनवान् यस्मिन् धनम् अस्ति अवच्छेद्यतावती इति श्रीलिङ्गपदम् यस्मिन् अवच्छेद्यता अस्ति कुत्र अस्ति अवच्छेद्यता प्रतियोगितायाम् अस्ति खलु अतः अवच्छेद्यतावती प्रतियोगिता अवच्छेद्यता आश्रयः प्रतियोगिता इति व उक्तवन्तः पूर्वम् इदानीम् अवच्छेद्यतावती प्रतियोगिता इति वदामः अर्थः तु समानः एव इदानीम् सा प्रतियोगिता किम् निरूपयति पूर्वम् दृष्टम् प्रतियोगिता अनुयोगिताम् निरूपयति खलु तदपि तस्मिन् स्थाने प्रतियोगिता तन्निरूपकः अभावः इति उच्यते परन्तु अर्थः तु समानः एव इत्युक्ते पुनः अन्तिमवाक्यम् पुनः पुनः एकवारं वदतु हा हा घटत्वनिष्ट अवच्छेदकता निरूपित अवच्छेद्यतावती प्रतियोगिता तन्निरूपकः अभावः इत्युक्ते प्रतियोगिता अनुयोगितां निरूपयति कीदृशिता अभावनिष्ठ अनियोगिता तत्सर्वं संक्षिप्तरूपे कथं वद कथं वदामः घटनि घटत्वनिष्ठ अवच्छेद्यता निरूपित अवच्छेदकता निरूपित अवच्छेद्यतावती प्रतियोगिता तन्निरूपकः अभावः इति उच्यते इत्युक्ते अभावः प्रतियोगिता कः इति उच्यते संक्षिप्तरूपेण प्रध्वंसाभावः वा प्राग्भावः यत्किमपि भवतु यत्किमपि अभावः भवतु प्रतियोगिता तन्निरूपकः अभावः इति वदामः अग्रे अपि अस्ति एवम् पटः नास्ति इति पठत्ववचिन्न प्रतियोगिताकः किम् अस्ति प्रतियोगिताकः अभावः समीचीनम् अत्रापि पटत्ववचिन्न एतत् सर्वं, पूर्वम् दृष्टवन्तः खलु दीर्घम् वाक्यम् तस्मिन् स्थाने पटत्वावचिन्न प्रतियोगिताकः <coughs> पटाभावः इति उच्यते इत्युक्ते पटत्व अवच्छिन्न अवच्छेदकतानिरूपित अवच्छेद्यतावती प्रतियोगिता कः पटाभावः स्पष्टम् प्रतियोगिता कः इत्युक्ते इति यस्मिन् अभावे अनुयोगिता अस्ति सा अनुयोगिता प्रतियोगितां निरूपयति इति अर्थः अस्तु अग्रे सीमा भगिनी कृपया रूपं कः महोदय कः कः अन्त रूपं किं किम् किम? अवच्छेदकः एवं रूपं किं रूपं वा प्रीवियस्लि मतुप्रत्ययः उक्तः किल एवं अवच्छेदकः इति वा तत्र तु सुबन्तरूपं खलु अवच्छेदकः अग्रे सीमा भगिनी अस्तु भगिनि अन्योन्यभावनिरूपणाय तादात्म्यसम्बन्धादिनिरूपणम् आदौ क्रियतेः संयोगः समवायनिरूपणे उक्तः अभावः प्रतियोगिता अनियोगिता इत्यादयः इत्यादयः पदार्थाः तु न संयोगेन सम्बन्धाः भवन्ति द्रव्य द्रव्ययोः एव संयोगः इति नियमात् नापि समवायेन समवायः तु गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्तः अवयवयोः अवयव ोः विशेषनित्यद्रव्ययोः एव इति उक्तम् एव अतः अभावादिपदार्थानाम् आधे भाव आधेयभावनिर्वाह् निर्वाहाय निर्वाहाय स्वरूपसम्बन्धः इति सम्बन्धः कल्प्यते mm. uh. अन्योन्यभावस्य निरूपणं निरुपणस्य पूर्वं तादात्म्यसम्बन्धः ज्ञातव्यः अतः mm. अत्र तद् उक्तः संयोगः समवायः समवायः च पूर्वं पूर्वम् उक्तम् mm. Um, तु uh, अभावेन uh, प्रतियोगितया अनियोगितया इत्यादयः दे, इत्यायैः um, uh, पदार्थाः सन, सन् संयोगसम्बन्धेन uh, सम्बन्धः um, न भवितुम् अर्हन्ति um, यतः uh, संयोगः द्रव्ययोः एव भवति एवम् अभावस्य एवं प्रतियोगितायाः नियोगितायाः सम्बन्धः नित्यः नास्ति अतः तेषां पदार्थैः समवायः समवायः सम्बन्धः न भव भवितुम् अर्हति mm, समीचीनम् अतः तयोः मध्ये अभावादि एवं पदार्थयोः मध्ये पदार्थानां मध्ये स्वरूपसम्बन्धः कल्प्यते किन्तु आधार आधेयभावनिर्वाहाय इत्युक्ते भावप्रयोजनाय निर्वाहाय इत्युक्ते किं भगिनि निर्वाहय अवगमनार्थं निर्वाहाय इत्युक्ते सर्वं टु एक्स्प्लेन् इट् या टु एस्टाब्लिश् इट् ओके अस्तु तर्हि आधार आधेयभावसम्बन्धः स्वरूप स्वरूपसम्बन्धः अत्र कल्प्यते इत्युक्ते सारांशः कः अभावस्य अभावप्रतियोगिता अनुयोगिता इत्यादयः एवं पदार्थानां मध्ये कश्चित् सम्बन्धः अस्ति कन् किन्तु सम्बन्धसंयोगः अथवा समवायः भवितुं न अर्हति अतः अन्यः नूतनः सम्बन्धः सम्बन्ध सा स्वरूपसम्बन्धः अस्ति समीचीनम् इत्युक्ते अभावः अपि तु अनुयोगितयोः मध्ये अनुयोगितायोः मध्ये स्वरूपसम्बन्धः पुनः द्रव्यप्रतियोगिता तयोः मध्ये स्वरूपसम्बन्धः hmm? अस्तु अग्रे पुष्प भगिनि आं भगिनि अभावः भूतले स्वरूपसम्बन्धेन भवति प्रतियोगिता घटे स्वरूपसम्बन्धेन भवति पूर्वोक्ता अवच्छेदकता अपि घटत्वे स्वरूपसम्बन्धेन दैशिकविशेषणतया विशेषणतया भवति mm. uh, अस्ति न तथैव ता तथैव ता uh, भूतले uh, uh, uh, स्वरूपसम्बन्धेन uh, अभावः भवति घटस्य अभावः घटाभावः भूतले इति वदामश्चेत् तत्र भूतले घटः नास्ति इति प्रतीतिः खलु इते परन्तु तादृश अभावः भूतलं तयोः मध्ये कीदृशसम्बन्धः स्वरूपसम्बन्धः स्वरूपसम्बन्धः पुनः प्रत्यो प्रतियोगिता घटे स्वरूप स्वस्वरूपसम्बन्धेन भवति किं स्वरूप स्वरूपेण खलु स्वरूप एव स्वरूपसम्बन्धेन भवति प्रतियोगिता घटे स्वरूपसम्बन्धेन भवति एवं पूर्व एवम् उक्ता अवच्छेदक अपि अवच्छेदकता अपि घटत्वे स्वरूपसम्बन्धेन सम्बन्धेन दैशिकविशेषणता विशेषणतया भवति तत्तु दैशिकविशेषणता इत्येव इति वदनेन संज्ञा अस्ति कोऽपि संज्ञा अस्ति इत्युक्ते अवच्छेदकता कुत्र अस्ति प्रतियोगितायां प्रतियोगितां धर्मे अस्ति खलु न घटत्वे अस्ति घटत्वे वा पटत्वे जलत्वे अस्ति अवच्छेदकता अस्तु तयोः अपि स्वरूपसम्बन्धः एव स्वरूपसम्बन्धः दैशेक दैशे दैशिकविशेषणतया वा कालविशेषणतया भिद्यते कालसम्बन्धेन अस्ति चेत् कालविशेषणता इति उच्यते दैशिकविशेषणतया इत्युक्ते एकस्मिन् देशे अस्ति देशे इत्युक्ते स्पेस् इति तेन भिद्यते इति अर्थः इत्युक्ते अवच्छेदकता घटत्वे अस्ति तर्हि तयोः कीदृशः सम्बन्धः इत्युक्ते एकस्मिन् एकस्मिन् देशे एव भवति खलु तादृश द्रव्यम् एकस्मिन् देशे भवति एकस्मिन् क्षणे एकस्मिन् देशे एव भवति तस्मिन् विद्यमानधर्मः अपि तथैव तर्हि तस्मिन् विद्यमान अवच्छेदकता अपि तु धर्मः तयोः देशविशिष्टसम्बन्धः भवति इति उच्यन्ते oh. तदेव स्वरूपसम्बन्धः hmm. इत्युक्ते अन्यत्र कुत्रापि नास्ति इति प्रतीतिः अत्रैव hmm. विद्यते hmm. अन्यस्मिन् देशे तादृशघटः न विद्यते इति स एव न विद्यते अन्यत्र इति अत्र अस्तु hmm. hmm. hmm. चित्रस्य वर्णनं करोति वा कर, प्रयत्नं करोमि करत्वा um, uh, <laughs> <laughs> भावः दैशिकविशेषणतास्वरूपम् भूतले दृश्यते घनत्वाभावः भूतले भूतले दैशिकविशेषणता सम्बन्धेन अग्रे अग्रे प्रतियोगिता अम... घटे सम्बन्धेन घटे दैशिकविशेषणता स्वरूपसम्बन्धेन प्रतियोगिता अस्ति दैशिकविशेषणतया विशेषणतया प्रतियोगिता अस्ति घटत्वे दैशिकविशेषणतया स्वरूपसम्बन् सम्बन्धेन अवच्छेदकता अस्ति एवम् एवं हा एवं घटादिपदार्थानां स्वस्मिन् एव यः सम्बन्धः सः तादात्म्यसम्बन्धः सम्बन्धः इति उच्यते एतत् सर्वम् दृष्ट्वा एकः हा अवशिष्टः अस्ति hmm. किमस्ति तत् द्रव्यम् द्रव्यम् द्रव्येकेन सम्बन्धेन भवति इति प्रश्नः तादात्म्यसम्बन्धेन द्रव्य भवति इति उच्यते तादात्म्यमित्युक्ते तत् आत्मना तदात्मना विद्यते इति अर्थः इदानीम् अभावस्य चर्चापि समाप्ता किञ्चित् निमिषद्वयम् अस्ति चेत् अग्रिमशीर्षकम् आरभते समयः अस्ति वा अस्तु बालसुर्वमहोदय कृपया पठति वा एवं अस्य कारणम् इति वक्तुं निकषः तथा हि कार्यकारणभावविचारे उच्यस्यमानं यत् कार्यम् तत्प्रति किं कारणम् भवितुमर्हति इति विचारे आदौ तेन कार्याधिकरणे भाव्यम् इति चिन्तितम् यदि हस्तमलनिवारणम् जलेन कर्तुमिच्छति चेत् यद् मलः अस्ति यत्र मलनिवारणरूपम् कार्यम् कर्तव्यम् तद् जलसंयोगः आवश्यकः न तु अन्यस्मिन् अस्ति भूतलादौ वा अतः कार्यम् इति यत् वयम् मन्यामहे तस्य अधिकरणे कारणम् इति यत् निर्धारणीयं तेन स्थातव्यं कार्यकारणभावविचारे mm. mm. यत् कार्यं अस्ति तत् प्रति किं कर्तव्यम् किं कारणं भवितुमर्हति इति विचारे कार्यादिकरणे भाव्यम् इति आतो तेन इत्युक्ते किम् अत्र तेन इत्युक्ते किं कार्यकार इति खलु कार्याधिकरणम् यत्किमपि भवतु अधिककार्यस्य अधिकरणम् इत्युक्ते कार्यम् तु अस्ति कार्याधिकरणे खलु कारणम् खार्णा इति वक्तुम् किम् कथम् वक्तुम् शक्नुमः कार्यं प्रति एकम् कारणम् अस्ति इति वदनार्थम् कारणम् अपि कार्यादिकरणे भवेत् इति अग्रे अग्रे यदि उदाहरणं दत्तः यदि हसमलनिवारणं जलेन कर्तुमिच्छति चेत् तत्पटि यद् हस्य मलः अस्ति यत्र मलनिवारणरूपं कार्यं कर्तव्यम् तत्रस्य एव जलसंयोगः आवश्यकः न तु अन्यस्मिन् हस्ते कार्यं कारणं कार्यम् उभयोः अपि समान अधिकरणं भवेत् समीचीनम् अत्र उदाहरणे किं कार्यं किं कारणम् न न न कार्यं किम् हस्तमलनिवारणं खलु हस्ते मलः अस्ति मलः अस्ति इति कृत्वा निवारणं क्रियते खलु अतः मलनिवारणकार्यम् अस्ति कर्तव्यकार्यम् इति मलनिवारणं कारणं किम् कारणं निवारण निवारणार्थं जल अत्र अस्मिन् वाक्ये एव अस्ति कारणं किम् हस्तमलनिवारणं जलेन कर्तुम् इच्छति चेत् किमपि कारणं भवेत् नास्ति चेत् कथं कार्यं भवति इति प्रश्ने कृते किं किम् कारणं कारणम् जलसंयोगः खलु जलसंयोगेन एव निमारणं भवति जलसंयोगः नास्ति चेत् कथं शुद्धं क्रियते हरि ओम् कारणमेव इत्युक्ते मलनिवारणं प्रति कारणं जलसंयोगः साधनम् एवं कारणं समानम् अस्ति भगिनि अत्र साधनम् इति न उच्यते अत्र न्यायभाषया केचन निकषाः सन्ति एतत् कारणम् इति वदनार्थं केचन निकषाः सन्ति तत् पश्यामः okay. इत्युक्ते अत्र केवलं प्रथमप्रच्छेदमेव पुनः कुर्मः अग्रिमे सप्ताहे परन्तु केवलं हस्तनि मलनिवारणम् इति कार्यं भवेत् जलसंयोगः इति किमर्थमिति अग्रे पश्यति अतः अन्तिमं वाक्यं कृपया वयं मन्यामहे तस्य अधिकरणे निर्धारणीयम् इत्युक्ते कार्यं यद् यत्र भवति यस्मिन् अधिकरणे भवति तस्मिन्नेव अधिकरणे कारणम् स्थातव्यम् इत्युक्ते कारणेन स्थातव्यं कारणेन तेन तस्मिन्नेव अधिकरणे स्थातव्यम् इति प्रथमः निकषः अत्र कारणमिति रीसन् इति वार्तायाः अर्थं नास्ति किल कारणम् इति रीसन् इति वदामः किञ्चित् भिन्नः एव नाम रीसन् इत्युक्ते वै इस् दिस् हेपनिङ्ग् इति प्रश्नस्य उत्तरं खलु परन्तु कास् इत्युक्ते वाट् इस् काण्ट्रिब्यूटेड् टु इट् इत्युक्ते वाट् कास् इस् इट् इस् रेस्पान्सिबल् फार् दिस् हेपनिङ्ग् तादृशं किञ्चित् अस्तु केवलं परिचयरूपेण एव अग्रे अग्रिमसप्ताहे पश्यामः अस्तु स्पष्टं वा एतत् सर्वं भगिनि अस्तु तर्हि समापयामः धन्यवादः